आनर्ताश्च तथा सर्वे नटा नर्तकगायनाः बहिर्निर्वासिताः क्षिप्रम् रक्षद्भिर्वित्तसञ्चयम् सङ्क्रमाभेदिताः सर्वे नामश्च प्रतिषेधिताः परिखाश्चापि कौरव्यकालैः सुनिचिताः कृताः उदपानाः कुरु श्रेष्ठ तथैवाप्यम्बरीशकाः समन्तात्क्रोशमात्रम् चकारिता विषमा च भूः प्रकृत्या विषमम् दुर्गम् प्रकृत्या च सुरक्षितम् विशेषेण तदानघ सुरक्षितम् सुगुप्तम् च सर्वायुधसमन्वितम् तत्पुरम् भरतः श्रेष्ठयथेन्द्रभवनम् तथा न चामुद्रोऽभिनिर्याति न चामुद्र प्रवेश्यते वृष्ण्यन्थकपुरे अनुरथ्यासु सर्वासु चत्वरेषु च कौरवा बलम् बभूव राजेन्द्रप्रभूतगजवाजिमत् दत्तवेतनभक्तम् च दत्तायुधपरिच्छदम् कृतोपधानम् च तदा बलमासीन्महाभुजा न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः एवं सुविहिता राजन् द्वारका भूरि दक्षिणा आहुकेन सुगुप्ता च राज्ञालोचना इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने पञ्चदशोऽध्यायः